्यञ्च न मत्यम् न च न श्रियम् नो पुमांसम् न द्रव्यम् कर्म जातिम् गुणमपि सदसत्वापि ते रूपमाहुः शिष्टम् यस्या निषेधे सति निगमशतैलक्षणावृत्तितस्तत् कृष्रेणावेद्यमानौ परमसुखमयौ भाति तस्मै नमस्ते ये